सङ्गच्छध्वं संवदध्वं शम्भो मनाम् देवभागं यथा पूर्वेसं जानाना जाना नं मनहसः चित्तमेशाम् चित्तमीशाम् आ समानं मन्त्रमभिमन्त्रयेव समा नीनवो हविषाजुहोमि सङ्गच्छध्वं संवदध्वं सम् ॐ मनासि जा समानिव आकूति समाना हृदयानि वः समानीव आ समाना हृदयानि वः समानमस्तु वो मनु यथा वः सुसहासति सङ्गच्छध्वं संवद da da da da da